मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं तर्टि त्रि गजासुरवधाख्यानं श्रीगणेशाय नमः मुद्गल उवाच समागतं महादैत्यं दृष्ट्वा देवाभयादुरा गजाननं निजं नादं ययोर्वृत्तान्तमीरिदुं स वृत्तान्तं देवमुखा परशुम्पचमुग्रं च गदां धृत्वा ययौ तदा मूषकाजूढमाद्यं तं पुरुषं दैत्यनायकः दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः गजासर उवाच किमर्थं रणभूमौत्वमागधो ब्राह्मणाधम तपः त्वया नित्यं कथं क्षात्रं समाश्रितः ब्रह्मादयोजिता येन तेन सार्धं त्वया द्विज युद्धं कर्तव्यमत्यन्तं वृद्धा मरणमाप्स्यसि गच्छस्वमाश्रमं विप्र नहन्मित्वां समागतं बालभावात्कृतं कर्म सहेहं नात्र संशयः इत्युक्तवन्तमालोक्य शम्भुक्रोधसमन्वितः उवाच तं महादैत्यं भजत् तद्धितकाम्यया शिव उवाच मूर्खोऽसि दैत्यराजत्वं नायं ब्राह्मणसत्तमः गणेशोऽयं सदा सेव्यो योगिभिः परमादृदैः पराशरस्य पुत्रो भूत्तपःसाराधितस्वयं वरदानप्रभावेण त्वां भनिष्यदि निश्चितं त्यक्त्वा वैरं गणेशं च शरणं दैत्यनायक ये हि नो चेच्च सर्वस्वं हित्वा मृत्युमवाप्स्यसि वसपादालभूमौ त्वं न गणेशो हनिष्यदि एवं श्रुत्ववच शम्भुं जघान गदया सुरः भूमौ शङ्करस्तत्र शङ्करे शस्त्रास्त्रायस्तेन दैत्येन मूर्च्छिताश्च कृतासुराः विष्ण्वाद्याश्रमे तत्र पतिता पीडिता भृशं दैत्याधिपं ततो दृष्ट्वा गणेशोऽस्त्रमुपाददे परशुं मन्त्रयामास संहारास्त्रविधानदः तत्याज दैत्यसेना यमहास्त्रं यमसन्निभं हता परशुना दैत्या यत्र तत्र स्थिदा मृधे पश्यतो दैत्यराजस्य प्रधानाश्च मृतासुताः संहारास्त्रनिवृत्त्यर्थं नाना यत्नमथाकरोत् सर्वं तन्निष्फलं जादं गजदैत्यस्य संयुगे एक एव महादैत्यो वरदानप्रभावदः स संहारादुर्वरिदो कदः परशुनान च ततो दैत्यो ययौ क्रोधात्समीपे विघ्नपश्य च शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धोद्यो भवत तादृशं तं गणेशानो दृष्ट्वा क्रोधसमन्वितः दर्शयामास दैत्याय रूपं स्वानन्दगम् परम् अनन्दादित्यसङ्घर्षं गजवक्त्रविराजितं ज्योतिषां ज्योतिरापूर्णं योगरूपं सुशान्दिदम् तं धर्तुं दैत्यराजस्म यतदे निकटस्थितम् आकाशवन्नतद्रूपं हस्तगं चाभवत्प्रभोः आश्चर्यं हृदये मत्वा दैत्येशो विह्वलो भृशम् अहोमया हृतो ढुण्ढिर्हस्तगो मेन हस्तगः किमिदं कौतुकं पूर्णं गणेशोऽयं सनातनः ब्रह्माकारो न सन्देहो हनिष्यदि समाहं ध्रुवं धन्यं जन्ममदीयं वै पिदरा वाश्रमादिकं गणेशहस्तशस्त्रेण मरिष्यामि न संशयः शुक्काद्या योगिनोयं वै प्राप्ता योगै सुदुश्चरैः आयासेन विनाशोऽयं मया प्राप्तो गजाननः तं प्रणम्य महाभक्त्या दैत्यशो वरकाङ्क्षया जगाद गणनाथं वैभावभाविदमादराद ब्रह्म ब्रह्मेश जकी मां दासं ते गणनायक वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः न संसारसुखे चित्तमदीयं ते प्रदर्शनाद त्वयागतो भविष्यामि ब्रह्मभूतो न संशयः प्रार्थयन्तमहादैत्यमकुशेन जानदम् गणेशसोऽपि सायुज्यं तस्य प्राप्तः प्रजापदे शङ्कराध्यासुरास्तत्र मुनयो मोहसंयुताः न विधुश्चेष्टितम् तस्य बभुर्भ्रान्ता इव हदं हा। दैत्यम् समालोक्य हर्षितास्ते तदा भवन् गणेशोऽपि स्वकं रूपं लीनम् कृत्वा पूर्वाकारं च तं दृष्ट्वा तुष्टुपुस्ते सुरर्षयः सम्भोज्य भक्तिभावेन नेमुश्च न मृदुः देवर्षय ऊजुः नमस्ते गजवत्राय गजानन सुरूपिणे पराशरसुधायैव वत्सलासूनवे नमः व्यासभ्रात्रे सुैव पितृव्याय नमो नमः अनादिगणनाधाय स्वानन्दावासिने नमः रजसा सृष्टिकर्त्रे दे सत्वद पालगायवै तमसा सर्वसंहर्त्रे गणेशाय नमो नमः प्रकृधे पुरुषस्यापि रूपिणे परमात्मने बोधाकाराय वै तुभ्यं केवलाय नमो नमः स्वसंवेद्याय देवाय योगाय गणपाय च शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मणाय विनायकाय वीराय गजदैत्यस्य शत्रवे मुनिमानसनिष्ठाय मुनीनां पादकाय च देवरक्षाकरायैव विघ्नेशाय नमो नमः वक्रतुण्डाय धीराय चैकदन्ताय ते नमः त्वयायं निगतो दैत्यो गजनामा महाबलः ब्रह्माण्डे मृत्युसम्बीनो महाश्चर्यं कृतं विभो हतोत इत्येधुना कृष्णं जगत्सन्तोषमेष्यति स्वाहा स्वधायुधम् पूर्णं स्वधर्मस्थम्भविष्यति एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः प्रणम्य तूष्णीं भावं ते सम्प्राप्ता विगतज्वराः कर्णौ सम्पीड्य गणपचरणे शिरसोध्वनिः मधुरप्राकृतस्तैः सुते न तुष्टोगजाननः ता अनुवाचमदीया ये भक्ताः परमभाविताः तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा तेभ्योऽहं परमप्रितो दास्यामि मनसीप्सितं एतादृशं प्रियं मे च नमनं नात्र यवमुक्त्वा स तान् सर्वान् सिद्धि बुद्ध्यादिसंयुतः अन्तर्धते ततो देवामुनयश्वस्थलं ययुः पिदा पराशरस्तस्य मादा वैवत्सला प्रभोः शोगसागरमग्नौ तौ श्रुत्वा वार्तां निपेददुः ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः योगशान्तिमयं ज्ञानं बोधयामः स शाश्वतं संस्थाप्य ब्राह्मणैः सह तस्या पूजा प्रकर्तव्या भवद्भ्यां नित्यमादराद देहव्यापारिता तत्र कर्तव्या हृदिशान्तिदं योगरूपधरं दृष्ट्वा कालमाक्रमदं सदा एवमुक्त्वा हृदिस्थोऽसौ गणेशोन्दर्दधे ततः कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ अचलास्थापिता मूर्तिसिद्धिदा सा भवत्परा दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा यदत्ते कथितं सर्वं गजा सुरवधाश्रितं चरितं गणनाथस्य सर्वपापहरं शुभं यशृणोदि नरो भक्त्या पठेद्वादु प्रजापदे तस्मै भुक्तिप्रदं पूर्णमुक्तिदं प्रभविष्यति ॐ तत्सदिः श्रीमदान्ध्ये पुराणोपनिषदिश्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः ओम्